नारदपुराणं पूर्वार्धम् अध्यायं 65 सनत्कुमार उवाच परीक्ष्य शिष्यं तु गुरुं मन्द्रशोधनमाचरेत् प्राक्प्रत्यग्दक्षिणादक् च पञ्चसूत्राणि पादयेत चतुष्टयं चदुष्कानाम् स्यादेवं नृपकोष्टके तत्राद्य प्रथमे त्वाद्यं द्वितीयाद्ये द्विदीयकम् तृतीयाद्ये तृतीयं स्यान् चतुर्दाद्ये तुरीयकम् तत्तदाज्ञेयकोष्ठेषु तत्तत्पञ्चममक्षरम् विलिख्यक्रमदो धीमान्मनुं संशोधये तदः नामाध्यक्षरमारभ्य यावन्मन्त्रादिवर्णकम् चतुष्के यत्र नामान्नस्तत्स्यात्सिद्धिचतुष्कम् प्रादक्षिण्या तद्विधीयम् साध्याख्यम् परिकीर्तितं तृतीयं पुंसि सिद्धाघ्यं तुरीयमरिसंज्ञकं द्वयोर्वर्णावेकोष्ठे सिद्धसिद्धेदि तन्मतं तद्विदीयेदु मन्त्रार्णे सिद्धसाध्यप्रकीर्तितः तृतीये तत् सिद्ध स्यात् सिद्धारेस्तञ्च दुर्धके नामार्णान्यचतुष्कात्तु द्वितीये मन्द्रवर्णके चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम् तत्र तत्कोष्ठमारभ्य गणयेत् पूर्ववत्क्रमात् साध्य सिद्धसाध्य साध्य सुधिपु तृतीय चेंच दुष्के यमक तदापूर्वोक्रद मनीषि सुसी तत्सुसिद्धश्च तदृषिः तुरीये चेञ्चतुष्केदु तदैवं गणयेत्सुधिः अरिसिद्धोरिसाध्यश्च तत्सुसिद्धश्च तद्रिभुः रिध्रसिद्धो यथोक्तेन द्विगुणात्सिद्धिसाध्यकः सिद्धस् सुसिद्धोऽर्ध्वतया सिद्धार्थ सिद्धः सुसिद्धोऽर्धतया सिद्धा जिर्हन्ति गोत्रजान् द्विगुणास्साध्यसिद्धस्तु साध्यसाध्यो विलम्बदः साध्यः सुसिद्धो द्विगुणास्साध्या जिर्हन्ति बान्धवान् सुसिद्धसिद्धोऽर्धतया तत्साध्यो द्विगुणाजवाद तत्सुसिद्धप्राप्तिमात्रा सुसिद्धरिकुटुम्बहृद हरिसिद्धस्तु पुत्रघ्नोरिसाध्यकन्यतापः तत्सुसिद्धकलत्रघ्नसात् ग्नो रेप्यरिस्मृदः अन्येऽप्यत्र प्रकारा हि सन्ति वै बहवो मुने सर्वेषु मुख्योऽयं तेऽत्र कथितो कथहाभिधः एवं संशोध्यमन्त्रं तु शुद्धे काले स्थले तथा दीक्षये गुरुशिष्यं तद्विधानमुदीर्यते नित्यं कृत्यं विधायाधप्रणम्य गुरुपादुकां प्रार्थयेत्सद्गुरुं भक्त्याभीष्टार्थमादृदः सम्पूज्य वस्त्रालङ्कार गोहिरण्यधराधिभिः कृत्वा स्वस्तिविधानं तु मण्डलादिचतुष्टिवान् गुरुशिष्येण सहिदस्युचिर्यागगृहं विषेद सामान्यार्कोदकेनाथसम्प्रोक्ष्य द्वारमस्त्रतः दिव्यानुसारद्विघ्ना नभस्तानार्च्य वारिणा पार्ष्णिकादयस्तृभिर्भौ मांस्तदकर्म समाचरेद वर्णकैः सर्वतो भद्रे परिकल्पिते। वह्निमण्डलमभ्यर्च्य hmm. तत्कलाः परिपूज्य च अत्र प्रक्षालितं कुम्भं यथाशक्तिविनिर्मितं तत्र संस्थाप्य विधिवत्तत्र भानो कलां यजेत विलोम मातृकामूलमुच्चरन् शुद्धवारिणा आपूर्यकुम्भं तत्रार्चेत् सोमस्य विधिवत्कलाः धूम्रार्चि रूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी शुश्रीसुरूपाकपि हव्यकव्यवहा तथा वक्नेर्दशकला प्रोक्ता प्रोच्यन्ते रवे कलाः तपिनी तापिनी धूम्रा मरीजिज्वालिनी रुचिः सुषुम्ना भोगदा विश्वात् बोधिनी धारिणी क्षमा अन्ध्येन्दोश्च कलाज्ञेयाक्ष्यमृदा मानदा पुनः तोषातुष्टिश्च पुष्टिश्च रतिश्च धृतिसञ्ज्ञिकाः शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीप्रीतिरङ्गदा पूर्णा पूर्णा मृदा चेदि प्रोक्ताश्चन्द्रमसकलाः संवेष्ट्य तस्मिन् सर्वैषधीक्षिपेद नवरत्नानि निक्षिप्य विन्यसेत् पञ्चपल्लवान् फनसाम्रवणाश्व बकुलेधि च तान्विदुः मुक्ता माणिक्यवैडुर्य गोमेदान्वज्रविद्रुमौ पत्मरागं मरकदं नीलं चेदि यथाक्रमं। एवं रत्नानि निक्षिप्य तत्रा वाह्येष्ट देवताम् सम्पूज्य विधिवन्मं त्री तदशिष्यं स्वलङ्कृतं वेद्यां संवेश्य सम्प्रोक्ष्य प्रोक्षणीस्तेन वारिणा भोधशुद्ध्यादिकं कृत्वा तच्छरीरे विधानदः न्यासजालेन संशोध्यमूर्ध्नि विन्यस्य पल्लवान् अष्टोत्तरशदेनाथमूलमन्त्रेण मन्त्रितैः अभिषिञ्चेत्प्रियं शिष्यं जपन्मूलमनुं हृदि शिष्ठोदकेन वाचम्य परिधायां वरं शिशुः गुरुं प्रणम्य विधिवत् संविश्येत् पुरतः शुचिः अधशिष्यस्य शिरसि हस्तं दत्त्वा गुरुस्ततः जपे दष्टोत्तरशतं द्येयमन्त्रं विधानदः नमोऽस्त्क्षरान् दद्या तदशिष्योर्चयेद्गुरुं तद सच्चन्दनं हस्तं दत्त्वा शिष्यस्य मस्तके तत्कर्णे प्रवदेद्विद्यामष्टवारं समाहितः सम्प्राप्त विद्यशिष्योऽपि निपतेद्गुरुपादयोः उत्तिष्ठवत्समुक्तोऽसि सम्यगाचारवान् भव कीर्तिश्रीकान्धिपुत्रायुर्बलारोग्य सदास्तुते ते तदशिष्यसमुद्धाय गन्धाद्यर्गुरुमर्चयेद् दद्याञ्च दक्षिणां तस्मै वित्त शाढ्य विवर्जितः सम्प्राप्यैवं गुरोर्मन्त्रम् तदारभ्य धनादिभिः देहपुत्रकलत्रैश्च गुरुसेवा परो भवेद् स्वेष्ठदेवं यजेन्मध्ये दत्त्वा पुष्पाञ्जलिं तदः अग्ने अग्निनैहृदिवागीशान् क्रमेण परिपूजयेद यदा मध्ये यजेद्विष्णुं बाह्यादिषु विनायकं रविं शिवां शिवं चैव यदा मध्ये दु शङ्करं रविं गणेशमं मां च हरिं चादयत् दाशिवा ईशं विघ्नार्पगोविन्दान् मध्ये चेद्गणनायकं शिवं शिवां रविं विष्णुं रवौ मध्यगदे पुनः गणेशं विष्णो मम्बां च शिवं चेदि यथाक्रमम् एवं नित्य समभ्यर्च्य देवपञ्चकमादृतः ब्राह्मे मुहूर्ते ह्युद्धाय कृत्वा चावश्यकं बुधः अशङ्कितो वाशय्यायां स्वकीय शिरसि स्मरेद सहस्रदलशुक्लाब्जकणिकास्तेन्दुमण्डले अकर्धादित्रिकोणस्थं वराभयकरं गुरुम् द्विनेत्रं द्विभुजं शुक्लगन्धमाल्यानुलेपनं वामेशक्त्यायुधं ध्यात्वा मानसैरुपचारकैः आराध्यपादुकामन्त्रं दशधा प्रजपेत् वा माया श्रीर्भङ्गें द्वाढ्या वियद्धं सखकाग्नयः ह सक्षमलवार्यग्निवामकर्णेन्दुयुग्मरुद तदो भृग्वाकाशघाग्निभङ्गें द्वाढ्या परन्तिमः तोयाग्नि सहक्षमलतोयाग्निचन्द्रशान्तियुधो मरुद तदश्रीचामुकां तेदुनन्दनाधामुकी पुनः देव्यम्बादेश्रीपादुकां पूजयामि हृदन्ति मे अयं श्रीपादुकामन्द्रसर्वसिद्धिप्रदो नृणां गुह्येतिज समर्प्याधमन्त्रैरेतैर्नमेत् सुधीः अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री श्रीगुरवे नमः अज्ञानतिमिरान्धस्य शलाकया। चक्षुरिन्मीलितं येन तस्मै श्री गुरवे नमः नमोस्तु गुरवे तस्मा इष्टदेवस्वरूपिणे यस्य वागमृतं हन्ति विषं संसार संज्ञकम् इति नत्वा स्तोत्रं सद्य प्रत्ययकारकम् ॐ नमस्ते नाथ भगवान शिवाय गुरुरूपिणे विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह नवाय तनरूपाय परमार्थैकरूपिणे सर्वाज्ञानतमोभेदभानवे भानवे ते स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मनि परत्रत्राय भक्तानां भव्यानां भावरूपिणे विवेकिनं विवेकाय विमर्शाय विमर्शिणाम् प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे पुरस्तात्पार्श्वयोः पृष्ठे नमस्तुभ्यमुपर्यधः सदा सञ्चित्स्वरूपेण विधेहि भवदासनं त्वत्प्रसादादहं देव कृता कृत्योऽस्मि सर्वतः माया मृत्यु मृत्युमहापाश्चाद्विमुक्तोऽस्मि शिवोऽस्मि वः यदि स्तुत्वा तदस्सर्वगुरवे विनिवेदयेद् प्रादप्रभृति सा यान्तं सां व्याधि प्रादरन्तदः यत्करोमि जगन्नाथ ततस्तु तव पूजनं ततश्च गुरुपादाब्ज गलितामृदधारय क्षालितं निजमात्मानं निर्मलं भावयेत्सुधीः मूलादिब्रह्म रन्ध्रान्तं मूलविद्यां विभावयेद् मूलाद्धारादधोभागे वर्तुलं वायुमण्डलं तत्रस्तवायुबीजोद्धवायुना च तदूर्ध्वकं त्रिकोणं मण्डलं वाक् ग्नेस्तत्रस्त वह्निबीज उत्पन्नेनाग्निना मूलाधारावस्थितविग्रहं प्रसुप्तभुजगाकारां स्वयं भूलिङ्गवेष्टिनीं विस्तम्बुनिभां कोडि विद्युदाभां तनीयसी कुलकुण्डलिनीं ध्यात्वा कूर्चेनोद्धापयेञ्चतां सुषुम्नां वर्त्मनादां च षट्चक्रक्रमभेदिनीं गुरुपदिष्टविधिन ब्रह्मरन्ध्रं नयेत् सुधीः तत्र स्थामृदः सम्मग्नीकृत्यात्मानं तत्प्र पडलव्याप्तै विमलं चिन्मयं परं पुनस्तां स्वस्थलं नीत्वा हृदि देवं विचिन्तयन् दृष्ट्वा च मनसा द्रव्यै प्रार्थयेन्मनुना मुना त्रैलोक्यचैतन्यमयादिदेवश्रीनाथविष्णु भवदाज्ञयैव प्रातः समुद्धाय तव प्रियार्थं संसारयात्रां त्वनुवर्तयिष्ये विष्णोरिधिस्थले विप्रकार्य ऊहोऽन्यदैवते तद् कुर्य सर्वसिद्ध्यैत्वजपाया निवेदनं षट्शतानि द्विवारात्रौ सहस्राण्येकविंशतिः अजपाभ्यां तु गायत्रीं जीवो जपदि सर्वदा ऋषिर्हंसस्तदा व्यक्तगायत्री छन्द ईरितं देवता परमो हंसश्चाद्यन्ते बीजचक्रिकम् तद षडङ्गं गुर्विधसूर्यः सोमो निरञ्जनः निराभासश्च धर्मश्च ज्ञानं चेदि तथा पुनः क्रमादेतान् हंसपूर्वानात्मनेपदपश्चिमान् जादयुक्तान् साधकेन्द्रषडङ्गेषु नियोजयेत् अकारसूर्य सङ्काश ते जाः सङ्गच्छदे बहिः सकारतादृशश्चैव प्रवेशे ध्यानमीरितम् विभागशः मूलाधारे वादिशान्दबीजयुक्ते च दुर्दले बंधुकाभ्येच्रिया सहिता पास्वगाय सुथा पात्र मोदकोलास वाग धीशाय वागीशा स्वाधिष्टाने स्वाधिष्ठनेद्रुमा वादिलान्तार्णसंयुते वामाङ्गचक्रियुक्ताय विद्याधिपदये तथा स्रुवाक्षमालालसितबाघवे पद्मजन्मने ब्रह्मणे षट्सहस्रं तु हंसारूटाय चार्पयेद् विद्युल्लसितमे काभे दा, दादि दिफान्तार्नपत्रके मणिपुरे शङ्खचक्रगदा पङ्कजधारिणी सश्रिये षट्सहस्रं च विष्णवे विनिवेदयेद अनाहदेर्कपत्रेद का कादिष्ठां तार्नसंयुते शुक्ले शूलाभय वरश्रद्धाकलशधारिणे वामाङ्गे शक्रियुक्ताय विद्याधिपदये सुधीः पृषारूढाय रुद्राय षट्सहस्रं निवेदयेत विशुद्धे षोडशदले स्वराढ्ये शुक्लवर्णके महाज्योतिप्रकाशायेन्द्रियाधिपदयेतदः सहस्रमर्पयेत् प्राणशक्त्या युक्तेश्चराय च आज्ञाश्चक्रे हक्षयुक्ते द्विदिलेव्ये सहस्रकं सदाशिवाय गुरवे पराशक्तियुधाय युदायवै सहस्रारे महापद्मे नाद बिन्दुद्वयान्विते विलस्सन् मातृकावर्णे वराभयपराय च प्ररमाद्ये च गुरवे सहस्रं विनिवेदयेद चुलुकेम्बु पुनर्धृत्वा स्वभावादेव हस्रप्रमितस्य जपस्य च षट्शताधिकसङ्ख्या स्यादचपाया विभागशः सङ्कल्पेन मोक्षदा विष्णोर्मे प्रीयतामिति अस्या सङ्कल्पमात्रेण महापापै प्रमुच्यते ब्रह्मैवाहं न संसारी नित्यमुक्तो न शोकभाक् सञ्चिदानं द रूपोऽहमात्मानमिति भावयेत् तदसमाचरेत्यं देवार्चनं तथा तद्धि प्रवक्ष्यामि सदाचारस्य लक्षणम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चषष्टितमोऽध्यायः ॐ